ध्यायामोधवलापकुण्ठनवदीं तेजोमयीं नैष्टिकीं निग्धापाङ्गविलोकिनीं भगवतीं मन्दस्मितश्रीमुखी वात्सल्यामृतवर्षिणीम् अधुरम् सङ्कीर्तनालापिनीं श्यामाङ्गीं मधुसिक्तसूक्तिम् अमृतानन्ताग्निरीम् ॐ अमृतेश्वर्यै नमः ॐ अमृतेश्वर्यै नमः ॐ अमृतेश्वर्यै नमः गणानाम् त्वा गणपदि कुम्भवामहे कविम् कवीनामुभं श्रवस्तमम् ेष् सरा ब्रह्मणा श्रवन् बुद्धिभिस्ति दसादनम् ॐ श्रीमहागणपदये नमः प्रणोदेव सरस्वती वायुवायु धीनामवैद्रवतु वाग्देव्यै till uh, where did we study last week? Vedanta yeah, so right? Yeah but the shanti shanti shanti right vedanta go after that right? Yeah, yeah we did you, we did it one so, half yeah just a half yeah. so veera adhevi jushmana na ava we did that yeah to yeah did adhe veera so veera okay so let us do that together twice and then we'll practice individually okay yeah. everybody is ready to we'll start with om chandasamrushabho okay dentil suvira aha okay okay 1 2 3 om yashchhandasamrushabho okay dentil suvira aha okay छुन्दोभ्योऽध्यमृता आत्मृ समेन्द्रो मेदया आसृ अमृतस्य देशधारणो जातु शरीरं मे दर्शनम् जिह्वा मे कर्णां ब्रह्मणः कोशोऽसि मे छायां मे गोपाय ॐ धा देवी जुषमाणा न त्वया जुष्टा नुदमाना दुरुक्ताः माना त्वया जुष्टानुदमाना दुरुक्तान् बृहत्पेम हितथे सुवीरान् मोर् टैम् बिगिनिङ्ग् वन् टु त्रि ॐ नश्छन्त स्वामृषभो विश्वरूपः छन्दोभ्योऽध्यमृता आत्म तमेन्द्रो मेधया आत्मौ अमृतस्य देवद्वारणो भूयासं शरीरं मे विदर्शनम् जिह्वा मे मधुमत कर्णा ब्रह्मणः कोशो मे ऋतं मे गोपाय ॐ शान्ति शान्तिः om nedashi dushamaada aahaa dhini aah drasu manasya malanga twaya stadutpaa dukhap harimaa tvadeb satye tu vihaaha everybody is okay with that Yeah. yeah. Okay, so who wants to go first? Harry, just one, so is it Brahadva Dhe, Brahadva Dhe Ma Vidha Dhe, right? Yeah, Brahadva brahad. Dhe Ma Vidha vi Dhe. Vidha Dhe. Brahadva Dhe Ma Vidha Dhe, okay. The, the second, Vidha is regular Dha without much stress. The next one is Tha. Tha Tha, Mahaprana Tha, okay? that that clear clear Milraj? Yeah, yeah. it's clear now, Da yeah. Da Da regular without much stress. first is regular Da, the next one is द नेक्स्ट् वन् इ तथा विदते सुवीराः ओके सो who wanted to go first cicila uh, ji right it is okay I can go <laughs> oh, oh, oh, someone said so i didn't remember who it was i can go but i didn't say it but i can go okay then you go <laughs> okay <laughs> ओ यच्छन्द मृषभोध्यमृता छन्दोऽभ्योऽध्यमृता आत्मबभूतमेन्द्रो मेधया आतृणोतु अमृतस्य अमृतस्य देवधारणो भूयासम् शरीरं मे विच् विचर्षणम् जिह्वा मे मधुमत्तमा कर्णा आभ्यां भूरिविश्रुवं ब्रह्मणः कोशोऽसि मेधया पिहितः श्रुतं मे गोपायन्तिः ब्रह्मणः कोशोऽ सो दट् दट् विसर्ग is get mm -hmm. a little bit predic becomes a harsh sound okay mm -hmm. brahmanah koshoshi brahmanah koshoshi mm -hmm. don't say brahmanah koshoshi okay mm -hmm. because then chanting it won't go together it's like a singing right so it has to follow the meter otherwise it won't sound good it's like this. regular sentence you can say that you can say brahmanah koshah asi medaya vihidah srutam me gopaya it's like a regular sentence you can say but when chanting Brahman okay. -si, Brahman -si, that Brahmann aff ko use. So Brahmann aff ko образ Florida covered by Kakaara I'll get that KHA sound. The, the dengan affperit so if I dig, so vulgarollュежду it, it, it becoming F sound, right, so. Okay. Brahmann aff ko sho see -si me -ja pal Dad? magical ok ok a-na- 51 mech drew yards 1991 ko show see me they still SEC Oh, Brahmann Kauh-shoshos High of the uh, Visha-ga, Brahma-nah-Kau-shoshy Ḙи ḥᵐᵉ ḥᵉᵃᵃᵃᵃᵃᵃᵃᵃᵃᵃᵃᵃᵃᵃᵃᵃᵃᵃᵃᵃᵃᵆᵃᵃᵃᵃᵃᵃᵃᵃᵃᵃᵃᵃᵃᵃᵃ ᵃ? It will automatically come because both of them are at the same place in your, uh, in your mouth. Both of them, kakarā and vissarga, both are from your throat so both of them will be there whatever you say Brahma-nah-kauh- कोशोऽसि मेधया श्रुतं हि ॐ शान्ति शान्ति शान्तिः ॐ मेधा देवी जुषमाणान आका आत्विषाची भद्रासुमनस्यमाना त्वया जुष् आहा। नुतमाना दुरुक्त्वाषभो विश्वरूपः छन्दोभ्योऽध्यमृता आत्सम् बभूव समेन्द्रो मेधया आस्पृणोतु अमृतस्य देवधारणो भूयासम् मे शरीरम् मे विचर्षणम् जिह्वा मधुमत्तमा कर्णा भूरि भूरिविश्रुवम् ब्रह्मणः कोशोऽसि मेधया पिहितः श्रुतम् मे गोपाय ॐ शान्तिः शान्तिः शान्तिः ॐ मेधा देवी जुषमाणा न आगा आ द्विश्वाची भद्रा सुमनस्यमाना त्वया जुष्टानुदमाना दुरुक्ता आन् बृहत्त्वदेमविदधे सुवीरां वृषपो विश्वरूपः छन्दोभ्योऽध्यमृदं बभुव मृदाभुवृदा शम्भूवः समिन्द्रो मेधया आशृणोदू अमृतस्य देवधारणो भूयासं शरीरं मे विजर्षणं जिह्वा मे मधुमत्तमां कर्णाभ्यां पूरिभिस्रुवं ब्रह्मणः कोशोऽ मेधयापि हि न सुदं मे गोपाया ॐ शान्ति शान्ति शान्तिः ॐ मेधा देवी जुषमाणान आग्वा आगा आद्विश्वादी भद्रा सुमनस्यमाना त्वया दुष्टानुदमान दुरुक्ता आन बृहद्वदेम need that he vidra vidra good who is first one next i can go i ahead. will go next okay bilraj you said first i heard you first so bilraj you go first then usha ji okay. after that okay okay, okay. यश्चन्दसामृषभो विश्वरूपः छन्दोऽभ्योऽध्यमृता आत्सम्बभूव समेन्द्रो मृ मेथया अमेथया आस्पृणोतु अमृतस्य देवधारणो भूयासं शरीरं मे विचर्षणम् जिह्वामे मधुमत्तमा कर्णाभ्य कर्णाभ्या कर्णा कर्णा कर्णा कर्णा आभ्याम्भूरिविश्रुवम् ब्रह्मणः कोशोऽसि मेधया पिहितः श्रुतं मे गोपाय ॐ शान्ति शान्ति शान्तिः ॐ मेधा देवी आगा आद्विश्वाची भद्रासुमनस्यमाना त्वया जुष्टा स्नुतमाना दुरुक्ता आनबृहत् ीरा वेरि गुड् ओके उषाजि ॐ यश्च सामृषवो विश्वरूपा छन्दोभ्योऽद्यमृताद् सम्बभूवा समे समेन्द्रो मेधया सम्पृणोतु मेधया स्पृणोतु अमृतस्य देवधारणो भूया भूयासम् िह्वामे मधुमत्तमा कर्णाभ्याम् भूरिविश्रुवम् ब्रह्मणकोशोऽसि मेतया पिहितः श्रुतं मे गोपाया ॐ शान्ति शान्ति शान्तिः ॐ मेधा देवी जुषुमानन आगा जुषमाणा न आगाद्विश्वाचिभद्रा सुमन्या दीर्घचिर न आगाद्विश्वाचि न आगादिष्वाची सुमनस्यमाना त्वया जुष्टानुदमाना दुरुक्तान् बृहद्वदे ओन्दसा वृषभो विश्वरूपः छन्दोद्यमृता समेन्द्रो संभु, मेधयात् शृणोतु अमृतस्य देवधारणो भूयासं शरीरं मे विचर्षणम् जिह्वा मे मधुमत्तमा कर्णाभ्याम् भूरिविश्रुवम् ब्रह्मणः कोशोऽसि मेधया पिहितः श्रुतं मे गोपाय ॐ नेधा देवी न आगा विश्वाची भद्रासुमनस्य माना त्वया जुष्टानुदमाना दुरक्ता दुरुक्ता दुरुक्तान् बृहत्त्वेम विदधे सुवीरास्ट् कण्टिन्यू फ्रोम् जुष्ट त्वया जुष्टुष्टया जुष्टिर्भवति देवि त्वया ब्रह्मा दे दे। त्वया ब्रह्मा देवि दे। ी ऋतश्रीत ब्रह्मा गतश्री रुद त्वया ीतश्रीड् आर् ओके त्वया जुष्टऋषिर्भवति देवी त्वया ब्रह्मा गतश्री is actually because of the sandeer. Brahma गतश्री इस् एक्चुलि सन्दी ब्रह्मा गतश्री ऋत त्वया गुड् सर् ओके स होल् लैन् त्वया जुष्ट Bhavati Devi ीरु त्वया दुष्टऋषिर्भवति देवी त्वया ब्रह्मा गति गतश्री ऋत त्वया जुष्ट भवति दे त्वया ब्रह्मा गतश्री त्वया ओके लेस्ट् नेक्स्ट् लैन् त्वया जुष्टश्चित्रम् त्वया जुष्टश्चित्रुष्टश्चित्रम् विन्दते वसुसानो विन्दते वसुसानो विन्दते वसेवसुसानु त्वया जुष्टश्चित्रम् विन्ददे वसु सानो जुषस्व लाङ्ग् लाङ्ग् सो मेल् बी टु मार्ैण्ड् आफ़् िङ्ग् नो मे सो सिम् थिङ्ग् इस् आल्सो द्रविणो न मेधेल् मात्रा त्वया जुष्टश्चित्रं विन्ददे वसुसानो जुषस्व द्रविणो न मेधे त्वया जुष्टश्चित्रं विन्दते वसुसानो जुषस्वद्रविणो न मेधे त्वया जुष्टश्चित्रं विन्दते वसुसानो जुषस्वद्रविणो न टु लेन् टुगुदर् दन् ट्र होल् प्याराग्राफ़् त्वया चुष्ट ऋषिर्भवति देवि त्वया ब्रह्मा गतश्रीरुदत्वया त्वया चुष्टश्चित्रं विन्द देवसु सानो जुषस्वद्रविणो ुषस्वद्रविणो न मेदे त्वया जुष्ट ुषत्वदपिनो <Sedit> न So, so, who wants to try it on their own? I can I go? Can, yeah. okay, go ahead. Okay. Go ahead. Okay, uh, uh, Gayatri, you go Okay, Okay. Okay, ahead. ahead. Gayatri, त्वया जुष्ट ऋषिर्भवति देवी त्वया ब्रह्मा गतस्वी पृथ त्वया त्वया जुष्टश्चित्रं विन्दति वसुसानो जुषस्व द्रविणो न मेथे good, good. Oh. I, I go. Okay, go त्वया जुष्टऋष भवति देवि त्वया ब्रह्मा कृतश्री कृत त्वया आ त्वया जुष्टश्चित्रं विन्दते वसुसानो जुषस्व द्रविणो न मेधे हरे त्वयि धनि yes, त्वया जुष्टुस्त ऋषिर्भवदि देवी त्वया ब्रह्मा गद श्रीरुद त्वया त्वया जुष्ट चित्रं नमेधे। वसु सानो जुषस्व द्रविणो न मेधे ऐ केन् गोनक्षरि ओके गोहेट् त्वया जुश्च ऋषिर्भवति देवी त्वया ब्रह्मागरित श्रीरुद त्वया त्वया वसुसानो मेदे। जुष्टश्चित्रो जुषस्व द्रविणो नया जुष्टऋषिर्भवति देवी त्वया ब्रह्मागदश्रीरुद त्वया त्वया जुष्टश्चित्रं विन्दते वसुसानो जुषस्वधे द्रविणो नया <coughs> okay. जुष्टऋषिर्भवति देवित त्वया ब्रह्मा गतश्री हृत त्वया <laughs> त्वया जुष्टित्रं विन्दते वसुसानो जुषस्व द्रविणो न मेधेड् त्वया जुष्टिटिल् ब्रेक् जुष्ट any time there is a consonant followed by a swara they can join together but in this case there will be some reason why they want to keep it separately so if you see some two words the second word starting with a swara then you pause after the first word and then only say that so you say tayajushta rishar bhavati notice tayajushtar good ishta and r can be combined together like krishna like ka plus ra kr vibhakam so Uh, but we don't combine that's uh, if it's separate words we'll just keep slight pause before combining it, okay so that's what you would see if there is a second word is starting with a swara you stop a little bit before after the first word so hari in uh, some other um, some times before the same thing the uh, treatment you had a comma in between right where we Pause. That is because the comma is there. You have to have a real uh, definite pause has to be done. For example, if there is visarga mm -hmm. followed by a shakara, then mm -hmm. definitely you have to pause after the visarga, then start with shakara. But in this case, like, if you look at the rudram, okay, let me show you the examples of this thing, okay, the questions we had, okay. Um, um, if you, um, the rudram, I'll show you. Uh, second day uh, this thing is say sambhave namaha namaste yep. astu right you don't say namaste then the next one is starting with akara so you say namaste astu you don't say namaste astu okay so there will be okay. a slight pause after that namaste followed by a akara will be namaste astu so say it pause after namaste and then uh, Similarly, if you go to the... Another other one, one the, the, the there. Thayas... There, there is, where the Kama is, like the Thayasman... Kama is the Thayasman... There is a... We stop there, that's where there's a Kama. Sure. There. In the book it's written. Yeah. The, the sa same thing, if you look at this thing, if sutra, uh, thing you Sudra, I think you would see is that... Viroobhe uh, bhyo vishruobhe bhyascha o namo namo mahar bhyaha kshullake bhyascha mahar bhyaha then there's a Kama there, right? In your book. yeah that day fall the same thing will happens next one say naabhyasse okay. na nibhyas cha wo namo namaha shatrbhya okay that is the rule of verakshakara so you just pass after the risala okay that is a different one yeah. that's a two things that is one that is definitely with the comma will be there. You don't have to worry about it <laughs> so the one i am saying is like if you in the śrīvidyām first paragraph you see also yasāmro aruna uda ubhrsu mangalah so or the more like wherever it is starting with a swara which is asoyastāmro the next one is aruna right yeah so asoyastāmro aruna uda babhrsu mangalah so aruna and uda there will be slight pause before that okay Because in, if you are writing it, you can join a swara with a consonant, right? Mm -hmm. Ka, plus e Ka plus e will become ki. Ka plus e will become ki. So why do you pause there, right? So those, the thing is that this is that joining is not done. That's why you should take a slight pause if the, the word is starting with a swara. Same thing. Uthai nam go pa. adarshan adarshan what is the name gopadarshan drshan okay one is gopa adarshan bil gopadarshan mm -hmm. sorry then mean to tigers <laughs> no no just no, okay do us questions not a big deal okay i mean once you understand the principle it will be easier to follow if you don't understand then blindly following somewhere you know what is going on somewhere so what the heck is what they going on, right so it's it's better to understand the principles and then go with it so no problem in asking questions okay any other question uh, hari can you also um, describe the meaning yeah actually uh, i'll discuss whole meaning next week okay okay i think that will be okay विल् गो त्र होल् थिङ्ग् लेट् देक्स्ट् इन्द्रो ददातु मेधा इन्द्रो ददातु मेधाम इन्द्रो ददातु मेधां देवी सरस्वती मेधां देवी सरस्वती सरस्वती सिम्पल् वर्ड् मेधां म इन्द्रो ददातु मेधां देवी सरस्वती मे धाम इन्द्रो ददातु मे धां देवी सरस्वती मे धाम इन्द्रो देवी सरस्वती <drank��> <vasive simplified denn se like> So you see that the Ma and Indra, the, there is a gap, right, even though it, you can say Ma and Indra, you can combine it, right, Ganesha, mm -hmm. Ganesha will become, right, Deva Indra, Deva Indra, Ma Indra, Me Indra, you can do it, but it's not done, that's why you should pass after the, Me Dhamma Indra, so you don't say Me Dhamma Indra, if they wanted to say it, they would have joined it together. Okay. Okay. ओके मे धा मे अश्विना मेधा मे अश्विना उभाताम् पुष्करस्रजा जा मेधा मेधामे अश्विना वुभा वाधत्ताम् मे धा मे अश्विना भूभा सजा अश्विना बुभा सजा ओके नी प्राब् गुड् टु द नेक्स्ट् वन् अप्सरासु चयामेधा गन्धर्वेषु च जन्मनः अप्सरासु च या मेधा गन्धर्वेषु च यन्मनः अप्सरा गन्धर ओके लैन् ओके नेक्स्ट् लैन् दैवीं नो देवीं ओके दैवीं ऐ दैवी ईं मेधां मेधा सरस्वती सामाम् मेधासुरभिर्जुषताम् धा सुरभिर्जुषताम् कामा मेधा सुरभिर्जुषता सुरभिर्जुषता ग स्वाहा र्जुषता ग स्वाहा सुरभिर्जुषता ग स्वाहा दैवीम मेधा सरस्वती दैवीं मेधा सरस्वती सा मां मेधा सुरभिर्जुषदाघ स्वाहा दैवी ऐं मेधा सरस्वती सामा मेधा सुरभिर्जुषतागस्वाहा दैवी ऐं मेधा सरस्वती सामा मेधा सुरभिर्जुषता गत्वाहा दैवी मेधा सरस्वती कामा मेधा सुरभिर्जुषता ग स्वाहा बडि okay, डु फ्रोम् टुडे टिल्पीट् त्वया जुष्ट ऋषर्भवति देवि त्वया ब्रह्मा गतश्रीरुद त्वया त्वया जुष्टश्चित्रं विन्दते वसुसानो जुषस्व द्रविणो न मेधे इन्द्रो ददातु मे देवी सरस्वती मेधामे मे अश्विनावुभावा धत्ता पुष्करस्रजा अप्सरा सु मेधा गन्धर्वेषु च यन्मनः दैवी ईं मेधा सरस्वती सामा मा मेधा सुरभिर्जुषताग स्वाहा त्वया त्वया जुष् भवति देवि त्वया ब्रह्मा ततश्रीरुया त्वया त्वया जुष्टश्चित्तम् विन्दते वसुसानो जुषस्त्वद्रविणो न मेधां म इन्द्रो ददातु मेधां देवी सरस्वती मेधां मे अश्विनाबुधा बाधत्तां पुष्करप्रजा ु च या मेधा गन्धर्वेषु च यन्मनः दैवी मेधा सरस्वती कामाधारभिर्जुषका गत्वा ब्रह्मा गदश्री हृद त्वया त्वया, त्वया दुष्टश्चित्रं ति वसुसानो जुषस्वद्रविणो न मेधां म इन्द्रो ददातु मेधां देवी सरस्वती मेधां अश्विना बुभा वाधत्तां पुष्करस्रजा अप्सरासु च या मेधा गन्धर्वेषु ैवी मेधा सरस्वती सामास् टु ट्रैन् देयर्के जय जी गोहेट् त्वया दृष्टा ऋषिर्भवति देवी त्वया ब्रह्मा त्वया त्वया रुया ओन्लि टु आस् ओके नोट् नोट् नोट् त्रि आस् रुद त्वया आरुद त्वया टु नोट् नोट् त्रि नोट् सि त्रि त्वया आ या त्वया दुस्तच्छित्रं विन्दते वसुसानो जुषस्व सृगिणो न मेधाम मेधां ददादु मेधां देवी सरस्वती मेधामे मे अश्विना बुभा बाधत्तां पुष्करस्रजा अप्सरा सुया मेधा गन्धर्वेषु चयन्मना दैवन्मनः जन्मनः दैवी मेधा सरस्वती सा मेधा सुरभिर्जुषता गवाहा स्वाहा स्वाहा Yeah. Swaha. If there's one A ah there, we'll put one more A. Ah, that's all. Swaha. Swaha. Uh -huh. Yeah. Only two A's. Okay? Not three A's. Okay. Good. Who wants to try next? I will go next, Harry. Go ahead, Shaji. Go ahead. Tvaya Jushta Krishat Bhavadi Devi Tvaya Brahma Gadas श्रीरुदत्वया त्वया जुष्टश्चित्रम् विन्दते वसुसानो जुषस्व द्रविणो नेदे मेधाम इन्द्रो ददातु मेधाम् देवी सरस्वती मेदामे अश्विनाभु अश्विनावुभावा दत्ताम् पुष्करस्रजा अप्सरा सुचया मेधा गन्धर्वेषु चयन्मनः दैवीं मेदा सरस्वती सा मा मेधा सुरभिर्जुषता स्वाहारि गुड् त्वया जुष्ट भवति देवी त्वया ब्रह्मा गतश्रीरुतत्वया त्वया, त्वया जुष्टश्चित्रम् विन्दते वसुसानो जुषस्स द्रविणो न मेधे मेधाम्म इन्द्रो ददातु मेधा मेधाम् देवी सरस्वती मेधां मे अश्विना वुफा वाधत्ताम् पुष्करः सजा अप्सरासु चय अप्सरासु चया मेधा गन्धर्वेषु देवी ईं मेधा सरस्वती सामा आं मेधा सुरभृजुषता स्वाहा स्वाहा स्वाहा त्वया जुष्टऋषि त्वया जुष्टऋषि भवति देवि त्वया ब्रह्मा गतश्री ऋतत्वया आ त्वया जुष्टश्चित्रम् विन्दते वसुसानो चुषस्वद्रविणो नमेथे मेधे मेधाम इन्दो ददातु मेधाम देवी सरस्वती मेधाम् मे अश्विनाबुभावाधत्ताम् पुष्करस्रजा अप्सरा सुया मेथा गन्धर्वेषु च यन्मनः दैवी ईं मेधा सरस्वती सा मां मेधा सुरभिर्चुषतागस्वाहारि गुड् किं गोहरि त्वया जुष्टरिषिर्भवति देवि त्वया ब्रह्मा गदश्रीरुदत्वया त्वया जुष्टश्चित्रं विन्दते वसुसानोजुष जुषस्व जुषस्वद्रविनो न मेधे मेधाम् मेथाम् म इन्द्रो ददातु मेधाम् देवी सरस्वती मेधां मे अश्विनावुभावा धत्ताम् पुष्करश्रचा अप्सरसा अप्सरा सु अप्सरा सुचया मेधा गन्धर्वेषु दैवी ईं मेधा सरस्वती सामा सामा सा मां मेधा सा मां मेधा सुरभिर्जुषदाग स्वाहा जुषदाग स्वाहा Okay, let us also try to finish the next paragraph. It's also small. You uh, have a few minutes. Aum <speaking in foreign language> Aum Medha Aum Aum Medha Aum Aum Medha, -medha. -medha. -medha. Surabhar Vishwarupam किरण्यवर्णा जगती जगम्या वर्ड् आर् ओके आमा आ मेधा सुरभिर्विश्वरूपा हिरण्यवर्णा जगति जगम्या वर्ड् ओके ओके विल् डु दोल् सेण्टे आमा आ मेधा सुरभिर्विश्वरूपा हिरण्यवर्णा जगदी जगम्या। बरन्या, बरन्या, जगती जगम्या माम् मेधा सुरभिर्विश्वपा हिरण्यवर्ण जगती जगम्या अडिक्स् ऊर्जस्वती पयसा ऊर्जस्वती पयसा ऊर्जस्वती पयसा ऊर्जस्वती पयसा ूजस्वती पयस बृन्दमान सा माधा सा आम् मेघा सा मा मेधा सुप्रतीका जुषन्ताम् सामा सा माम् मेधा सुप्रतीकाजुषन्ताम् वर्चार् ओके ऊर्जस्वती पयसा पिन्वमाना सा मा आम् मेधा सुप्रतीका जुषन्ताम् ऊर्जस्वती yeah. yeah. okay. पयसा पिन्वमाना सा मा आम् मेधा सुप्रतीका जुषन्ताम् yeah. ूर्जस्वती पयसा पिम्बमाना स्वामा जुशन्ताजस्वती पयसा पिम्बमाना सामा आम् नेहा सुप्रतीका जुषन्ताम् Is that okay? Yes. Yes. Okay. So let's uh, do the last two lines we learned to, uh, together two times. Okay. And then uh, probably we'll stop. We'll, uh, I'm thinking that next week also let's continue with this thing and then the only the fourth week let's do the practice. Okay. So I think that uh, the Memorial Day might be a holiday, right? So we probably won't do the fifth week. So I'm assuming that fourth week we'll do the practice. Okay. Okay. लास्ट् टु लेट् टुगेदर्टिङ्ग् विषन्ताडी वन् टु त्रि आमारण्य ूर्जस्वतीपयिन्दमादाेधा सुप्रतीका दुषन्ताम् आेधा पुरभृतिश्वरूपा हिरण्यमर्जगती जगान्या ओके सो नेक्स्ट् वीक् विल् कण्टिन्यू दिस्िनिश् दिटेन् ऐ जस्ट् थिंक ओन्ल थिङ्ग् आफ्टर् दिस्फ्टर् स्टडी इस् क्राबलि आम् थिंकिङ्ग् इस् mandarpushpa i see what the other list has then uh, maybe only one or two is more less than after that we'll have to do practice okay so i'm thinking that next week we'll finish this and then week after that we'll practice rudram chamakam and then maybe uh, finish anything else and then we'll practice uh, the uh, maybe third week one and fourth week the other or something like that okay okay okay, okay let's stop for the day with uh, any questions 9 3 there, there for more lines right yeah there is the uh, okay. only uh, four lines yeah okay okay yes yeah but we'll practice it next week and then maybe we'll start something else uh, i'll say why i'm thinking that uh, let me see what is uh, to be done then i'll send out uh, list O okay, que les deu tu loca a somente está? ॐ लोकाः साणो भवन्तो लोकाः नो भवन्तु लोकाः मस्ताः भवन्तु ॐ शान्ति शान्ति शान्तिः ॐ श्रीकृष्णो नमः हरिः सो